यदग्ने ते शिवं रूपम् ये च ते सप्तहेतयः तेन न नः परिपाहि त्वम् नान्यस्तप्ता विद्यते गोषु ऋषीनस्मान् बालकान् पालयस्व परेणास्मान् प्रेहि वैहव्यवाहा स्तम्भमित्र उवाच सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च त्वमग्निर्हव्यवाहस्त्वम् त्वमेव परमम् हविः मनीषिणस्त्वाम् जानन्ती बहुधा चैकधापि च सृष्ट्वा लोकाम् स्त्रीणि मान्हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः त्वम् सर्वस्य भुवनस्य प्रसूतिः त्वमेवाग्ने भवसि पुनः प्रतिष्ठा द्रोण उवाचा त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते नित्यप्रवृद्ध पचसि त्वयि सर्वं प्रतिष्ठितम् सूर्यो भूवा रश्मि वेद भूमि रो भूमिजाता विश्वादनसृज्य काले दृष्ट वृष्ट भावयसिह शुक्र त्वत्तयेताः पुनः शुक्रविरुधो हरितच्छदाः जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः इदं वै सद्मतिग्मांशो वरुणस्य परायणम् शिवस्त्राता भवास्माकमास्मानद्य विनाशय पिङ्गाक्षलोहितग्रीव कृष्णवर्त्मन्हुताशना परेण प्रेहि मुञ्चास्मान् सागरस्य गृहानि वा वैशम्पायन द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया अग्निरुवाच ऋषिर्द्रोणस्त्वमसि वै त्वया ईप्सितं ते करिष्यामि न च ते विद्यते भयम् मन्दपालेन वै यूयं मम पूर्वं निवेदिताः वर्जयेः पुत्रकान् मह्यं दहन्दावमिति तस्य तद्वचनं द्रोण त्वया यच्चेहभाषितम् उभयं मे गरीयस्तो ब्रोहि भ्रशं प्रीस्द्रं ब्रम स् द्रोणवाच इर्जारका शुक्र निजय्धा स्वताशन सब वैशंबाच तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् ददाह खाण्डवं दावं समिद्धो जनमे जय इति श्रीमहाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने एकत्रिंशदधिकद्विशततमोऽध्यायः